सिन्दूरारुण विग्रहाम् त्रिनयनाम् माणिक्यमौल्यस्फुरत् तरानयकशेखराम् स्मितमुखीम् आपीणवक्षोरुहा पाणिभ्यामलिपूर्णरत्न चषकम् रक्तोत्पलम् बिभ्रति सोम्यां रत्नघटस्तरक्तचरणां ध्यायेत्परामम्बिका अरुणां करुणां तरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचपणिमादिभिरावृता मयूखैः अहमित्येव विभावये भवानी ध्यायेत पद्मासनस्थाम् विकसित वदनाम् पद्मपत्रायताक्षी हे मा भाम् पीतवस्त्राम् करकलितल सद्देम पद्माम्बराङ्गी सर्वालङ्कारयुक्ताम् सततमभयदा भक्तनं राम्भवानी श्रीविद्यां शान्तमूर्तिम् सकलसुरनुताम् सर्वसम्पत् प्रदात्री सकुङ्गुमविलेपनामलिकचुम्बिकस्तूरिका स मन्दहसितेक्षणाम् अशेषजनमोहिनी अशेष जनमोहिनी अरुण माल्य भूषाम्बराम् जपविधौ स्मरेदम्बिका श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी शीलग्निकुण्डसम्भूता देवकार्यसमुद्यता उद्यद्भानुसहस्राभा चतुर्बाहुसमन्विता रागस्वरूपपाषाढ्या क्रोधाकाराङ्कुशोज्ज्वला मनोरूपेक्षुकोदंडा कोदण्डा पञ्चतन्मात्र सायका निजारुण प्रभापूर मज्जद्ब्रह्माण्ड कुरुविन्दमणिश्रेणी कनर्कोटीरमण्डिता अष्टमी चन्द्र विभ्राजदलिकस्थल शोभिता मुखचन्द्र कलङ्गाभ मृगनाभिविशेषका वदन स्मरमाङ्गल्य गृहतोरणचिल्लिका वक्त्रलक्ष्मी परिवाह चलन् मी नाभलोचना नव चम्पक नासा दण्ड विराजिदा तारा कान्ति तिरस्कारि नासाभरणभासुरा कदम्ब मञ्जरी क्लुप्त कर्णपूर मनोहरा डङ्गयुगलीभूत तपनोडुपमण्डल पद्मरागशिलादर्श परिभावि कपोलभू नव विद्रुमबिम्बश्री न्यकारिरद नक्षदा शुद्ध विद्याङ्कुराकार विज पङ्क्तिद्वयोज्वला कर्पूरवीटिकामोद समाकर्षि दिगन्तरा निज सल्लापमाधुर्य विनिर्भर्सित कच्छ मन्दस्मित प्रभापूर मज्जत् कामेश मानसा अनाकलित सादृश्यचि भुग श्रीविराजिता कामेश बद्ध माङ्गल्य सूत्रशोभितकन्धरा कनकाङ्गद केयूर् कमनीय भुजान् पिता रक्तयिपेय च्यूता कनो न भुक्ता फलान् कामेश्वर प्रेम रत्न मणिप्रदि वनस्थनी धार बाल रोमालिलता फलकुचद्वयी लक्ष रोमलता धारता सामुन्नेयमध्यमा स्तनभारदलन् रशनादामभूषिता कामेश ज्ञात सौभाग्य मार्दवोरुद्वयान्विता माणिक्यमुकुटाकार जानुद्वय विराजित् इन्द्र गोप परिक्षिप्त स्मर दूढाभजङ्घिका गूढ गुल्फा जयविष्णु प्रपदान्विता न गदीर्घिति सञ्चन्न न मज्जन तमो गुणा पदद्वय प्रभाजाद पराकृत सरोरुगा सिञ्जा न मणि मञ्जीर मण्डित श्रीपदाम्बुजा मराली मन्द महालावण्यशेवदिः सर्वारुणानवद्याङ्गी सर्वाभरणभूषिता शिवकामेश्वराङ्कस्था शिवा स्वाधीन वल्लभा सुमेरुमध्यशृङ्गस्था श्रीमन्नगरनायिका चिन्तामणि गृहान्तस्था पञ्चब्रह्मासनस्थितः महापद्माटवीसंस्था संस्था कदम्बवनवासिनी सुधा सागरमध्यस्था कामाक्षी कामदायिनी देवर्षिगणसङ्खात ूय मानात्मवैभव भण्डार सुरवधोद्युक्त शक्ति सेना समन्विता सम्पत् कवि समारूढ सिन्धुर व्रज सेविता अश्वारूढाधिष्ठिताश्व कोटि कोटि चक्रराज रथारूढ सर्वायुध परिष्कृता ज्ञेय चक्र रथारूढ मन्त्रिणी परिसेविकारिचक्र रथारूढ दण्डनाथा पुरस्कृता ज्वाला मालिनी बन्दि प्राकार मण्ड सैन्य वधोद्युक्त शक्ति विक्रमकर्षिता नित्या पराक्रमाटोप निरीक्षण समुत्सुक भण्डपुत्र वधोद्युक्त बाला विक्रम नन्दिता मन्त्रिण्यम्बा विरचित ङ्गभद्रतोषिता विशुक्रप्राणहरणी वीर्यनन्दिता कामेश्वर कामेश्वरमुखालोक कल्पित श्रीगणेश्वरा महागणेश निर्भिन्न विग्रयन्त्र प्रकर्शित भण्डासुरेन्द्र निर्मुक्त शस्त्र प्रत्यस्त्र वर्षिणी कराङ्गुलि न गोत्पन्न नारायण दशाकृतिः महापाशुपदास्त्राग्नि निर्दग्धासुरसैनिका कामेश्वरास्त्र निर्दग्ध सभण्डासुर शून्यका ब्रह्मोपेन्द्रमहे संस्तुत वैभवा हर नेत्राग्निसन्तग्ध काम सञ्जीवनौषधिः श्रीमद्वाग्भव कूटैः स्वरूप कट्यधो भागधारिणी मूलमन्त्रात्मिका मूल कूटत्रय कले वरा कुलावृतैकरसिका कुलसंकेतपालिनी कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी अकुला समयान्तस्था समयाचार तत्परा मूलाधारैकनिलया ब्रह्म ग्रन्थि विभेदिनी मणिपुरान्तरुदिता विष्णुग्रन्थि विभेदिनी आज्ञाचक्रान्तरालस्था रुद्रग्रन्थि विभेदिनी सहस्राराम्बुजारुढ सुधासाराभिवर्षिणी तडिलता समरुचिः षट्चक्रोपरि संस्थिता महाशक्तिः कुण्डलिनी विसतन्तु तनीयसी भवानी भावनागम्या भवारण्यकुटारिका भद्रप्रिया भद्रमूर्तिः भक्तसौभाग्यदायिनी भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा भुवी शारदाध्या शर्वाणि शाङ्करी श्रीकरी साध्वी शरच्चन्द्र निभारना शागोदरी शान्तिमती निराधारा निरञ्जना निर्मलेवा निर्मला नित्या निराकारा निराकुला निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा निष्कारणा निष्कलङ्का निरुपाधिर्निरीश्वरा निरागारागमदनी निर्मदा मदनाशिनी निश्चिन्ता निरहङ्कारा निर्मोहामोहनाशिनी निर्ममा मम दाही निष्क्रोधा क्रोधशमही निर्लोभा लोभनाशिनी निःसंशया संशयग्निर्भवा भवनाशे निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी निर्नाशा मृत्युमथनि निष्क्रिया निष्परिग्रहा निस्तुला निलचिकुरा निरपाया निरत्यया दुर्लभा दुर्गमा दुर्गा दुःख सन्ती सुखप्रदा दुष्ट दूरा दुराचार शमनी दोषवर्जिता सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता सर्वशक्तिमयी सर्वमंगला, सद्गतिप्रदा सर्वेश्वरी सर्वमयी सर्वमन्त्रस्वरूपिणी सर्वयन्त्रात्मिका सर्वतन्त्ररूपा मनोन्मनी माहेश्वरी महादेवी महालक्ष्मीर्मृडप्रिया महारूपा महापूजा महा शिनी महामाया महासत्वा महाशक्तिर्महारतिः महाभोगा महा महेश्वर्या महावीर्या महाबला महाबुद्धिर् महासिद्धिम् महायोगेश्वरेश्वरी महातन्त्रा महामन्त्रा महायन्त्रा महासना महाय क्रमाराध्या महाभैरव प्रोदिता महेश्वर महाकल्प महाता क्षिणी महाकामेश महिषी महात्रिपुरसुन्दरी चतुष्षष्ट्युपचाराढ्या चतुष्षष्टि कलामयी महाचतुष्षष्टि कोटि योगिनी गणसेविता मनुविद्या चन्द्रविद्या चन्द्रमण्डलमध्यगा चारुरूपा चारुहासा चारु चन्द्र चारु चारु कलाधरा चराचर जगन्नाथा चक्रराजनिकेतना पार्वती पद्मनयना पद्मलारसमप्रभा पञ्च प्रेतासनासीना पञ्च ब्रह्मस्वरूपिणी चिन्मये परमानङ्गा विज्ञानघनरूपिणी ध्यान ध्यातृध्येयरूपा विश्वरूपा जागरिणी स्वपङ्क्ति तैजसात्मिका सूक्ता प्राज्ञात्मिका तुर्या सर्वा वस्त्रा विवर्जिता ब्रह्मरूपा गोत्री गोविंदरू संहारिणी रुद्ररूपा तिरोधानकरेश्वरी सदा शिवानुग्रहदा पञ्चकृत्यपरायणा भानुमण्डलमध्यस्था भैरवी भगमालिनी पद्मासना भगवती पद्मनाभस भोरली उन्मेष निमिषोत्पन्न निपन्न भुवनावली सहस्र सहस्राक्षी सहस्र पात् आ ब्रह्म कीट जननी वर्णाश्रम विधायिनी निजाज्ञा रूप पुण्या पुण्यफल प्रदा श्रुतिसीमन्त सिन्दूरीकृत पादाब्ज धूलिका सकलागम सन्दोह श्रुति सम्पुट मौक्तिका पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी अम्बिकारनादिनिधना हरिब्रह्मेन्द्र सेविता नारायणी नारूप नामरूप विवर्जिता क्रीङ्कारी श्रीमती कृद्या हेयोपादेयवर्जिता राजराजार्चिता राज, राज्ञी रम्याराजीवलोचना राजीवलोचना रमी रमणेरस्य रडत् मेखला रमाराकेन्दुवदना रतिरूपा रतिप्रिया रक्षाकरी राक्षसघ्नी रामा रमणनं काम्या कामकलारूपा कदम्ब कुसुम प्रिया कल्याणि जगति कन्ता करुणारस सागरा कलावती कलालापा कांता कादंबरी प्रिया वरदा वामनयना कारुणी मद विह्वला विश्वाधिका वेद वेद्या विन्ध्याचल निवासिनी विधात्री वेद जननी विष्णुमाया विलासिनी क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्र क्षेत्रज्ञपालिनी क्षय वृद्धि विनिर्मुक्ता क्षेत्रपाल समर्चिता विजया विमला वन्द्या बन्दारु जन वाग्वादिनी वाम केशी वन्निमण्डल वासिनी पशुपाश विमोचिनी संकृता शेष पाषण्डा सदा चार प्रवर्तिका ता पत्र चिदेकरसरूपिणी स्वात्मानन्तलवीभूत ब्रह्माध्यानन्त सन्ततिः परा प्रत्यक्षिति रूपा पश्यन्ती परदेवता मध्यमा वैहरीरूपा वक्तमानसहंसिका कामेश्वर प्राणनाडी कृतज्ञा काम पूजिता श्रृङ्गारस सम्पूर्णा जया जालङ्घरस्थिता कोड्डाणपीठनिलया बिन्दुमण्डलवासिनी रघो यागक्रमाराज्या रहस्तर्पणतर्पिता सद्य प्रसादिनी विश्वसाक्षिणी साक्षि वर्जिता षडङ्गदेवतायुक्ता शार्गुण्य परिपूरिता नित्यक्लिन्ना निरुबमा निर्वाण सुखदायिनी नि, नित्या षोडशिकारूपा श्रीकण्डाथशरीरिणि नि। प्रभावती प्रभारूप प्रसिद्धा परमेश्वरी मूल प्रकृतिरव्यक्ता व्यापिनी विविधाकार विद्या विद्यास्वरूपिणी महाकामेश नयन कुमुदाह्लाद कौमुदी भक्तःर्दतमो भेद भानुमद्भानुसन्ततिः शिवदूती शिवाराध्या शिव मूर्तिः शिवङ्करी शिव प्रिया शिष्टेष्टा शिष्टपूजिता अप्रमेया स्वप्रकाशा मनो वाचा जडशक्तिर्जडात्मिका गायत्री जागृतिः सन्ध्या द्विजवृन्दनिषेविता तत्त्वासना तत्त्वमयी पञ्चकोशान्तरस्थिता निस्सीमहिमा नित्ययौवया मदशालिनी मरघूर्णित रक्ताक्षी मदपाटल गण्डभूः चन्दन द्रव दिग्दाङ्गी चाप्येय कुसुमप्रिया कुशला कोमदकारा कुरुकुल कुलेश्वरी कुलकुण्डालया कौलमार्ग गणनाधाि पुष्टिर्मतिर्धृतिः शान्तिः स्वस्तिमधि क्रान्तिर्नन्दिनी विघ्रराशिनि ते ओवती त्रिनयना रोलाक्षि कामरूपिणी पुरनायिका कालकण्ठी कान्तिमती क्षोरिणी सूक्ष्मरूपिणी वज्रेश्वरी वामदेवी वयोवस्तार्जिता सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी विशुद्धिचक्रनिलया आरक्तवर्णा त्रिलोचना खड्वागादिप्रकरणा वदनैक समन्विता पायसान्न प्रिया त्वक्ता पशुलोकभयङ्करी अमृतादि महाशक्ति संवृताया किश्वरी अनागताब्जनिलया श्यामाभावदनद्वया दंष्ट्वा ज्वलाक्षमालादि धरा रुधिरसंस्थिति कालरात्यादिशक्तौ घवृता सिद्धौ धनप्रिया महावीरेन्द्र वरदा राकिण्यम्बा स्वरूपिणी मणिपुराब्जनिलया वदनत्रय संयुता वज्रादिकायुधोपेता डामर्यादिभिरावृता रक्तवर्णा मांसनिष्ठा गुडान्न प्रीतमानसा समस्तभक्तसुखदा लाकिन्यम्ब स्वरूप स्वाधिष्ठानाम्बु जगदा चतुर्वक्त्र मनोहरा ूराद्यायुध सम्पन्ना पेदवर्णाति गर्विता मेदोनिष्ठा मधुप्रीद बन्दिन्यादिसमन्विता दध्यन्नासक्तहृदया काल्किनी रूपधारिणी पञ्चवक्त्रास्थि संस्थिता अङ्कुशादि प्रहरणा वरदादि निषेविता मुद्गौदना सक्त चित्ता सा किन्यम्बा स्वरूपिणी आज्ञा मुख्य शक्ति समन्विता हरिद्रानैकरसितानीरूपधारिणी सहस्रदल पद्मस्था सर्ववर्णोपशोभिता सर्वायुधरा सर्वा शुक्ल संस्थिता सर्वतोमुखी सर्वोदन प्रीतचित्ता या किंन्यम्बा स्वरूपिणी स्वाहा स्वधामतिर्मेधा श्रुति स्मृतिरनुत्तमा पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवणकीर्तना पुलोमजार्जिता बन्धमोचनी बर्बरालका विमर्शरूपिणि विद्या वियदादिजगत् प्रसूः प्रशमनी सर्वमृत्युन्निवारिणि अग्रगण्या चिन्त्यरूपा कलिकल्मशनाशिनी। कात्यायनि कालः कमलाक्ष निषेविता त्रामूरपूरितमुखी दाडिमी कुसुमप्रभा मृदाक्षी मोहिनी मुख्या मृडानि मित्ररूपिणी नित्यतृप्ता भक्तनि खिलेश्वरी निखिलेश्वरी मैत्र्यादिवासना लभ्या मगा प्रलय साक्षिणी पराशक्तिः परानिष्ठा प्रज्ञानघनरूपिणी माधीपाया रसा मत्ता मातृका वर्णरूपिणी महाकैलास निलया मृणाल मृदु दोर्लता महनीया दयामूर्तिम् महासाम्राज्यशालिनी आत्मविद्या महाविद्या श्रीविद्या कामसेविता श्रीषोडशाक्षरी विद्या त्रिकूटा कामकोटिका कटाक्ष किंकरी भूत कमला कोटि सेविता शिरस्थिता चन्द्र निभा भारस्तेन्द्र प्रभा हृदयस्था रवि प्रख्या दीपिका दाक्षायणी दैत्यकन्त्री दक्षयज्ञविनाशि दरान्दोलितदीर्घाक्षी दरकासोज्ज्वलङ्मुखी गुरुमूर्तिर् गुणनिधिं गोमाता गुभजन्म देवेशी दण्डनीदिस्था दहलाकाशरूपिणी प्रतिपञ्चराकान्ततिथिमण्डल पूजिता कलात्मिका कलानाथा काव्यालाभ विमोदिनी स सव्यदक्षिण सेविता आदिशक्ति रमेयात्मा परमा पावनाकृतिः अनेककोटि ब्रह्माण्ड जननि दिव्यविग्रहा क्लिङ्कारि केवलागुह्या कैवल्य पददायिनी त्रिजगद्वन्द्या त्रिमूर्तित्रिशेश्वरी त्रक्षरी दिव्य गन्धा सिन्दूरतिलकाञ्चिता उमाशैलेन्द्र तनया गौरी गन्धर्व सेविता विश्वगर्भा स्वर्णगर्भा अवरदा वागधीश्वरी ज्ञानगम्या परिच्छेद्या ज्ञानदाज्ञानविग्रहा सर्ववेदान्तसंवेद्या सत्यानन्दस्वरूपिणी लोपामुद्रार्चिता लीलाक्लृप्त ब्रह्माण्डमङ्गला दृश्यादृश्यरहिता विज्ञात्री वेद्यवर्जिता योगिनी योगदा योग्या योगानन्ता युगन्धरा इच्छाशक्ति ज्ञानशक्ति क्रियाशक्ति स्वरूपिणी सर्वाधारा सुप्रतिष्ठा सदसद्रूपधारिणी लोकयात्रा लोकयात्रानिदायिनी एकाकिनी भूमरूपा निर्द्वैताद्वैतवर्जिता अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्यस्वरूपिणी बृहदि ब्राह्मणि ब्राह्मणी ब्रह्मानन्दा बलिप्रिया भाषारूपा बृहत् सेरा भावा भाव विवर्जिता सुखाराध्या शुभकरी शोभना सुरभागतिः राजराजेश्वरी राज्यदायिनी राज्यवल्लभा राजकृपा राजपीठनि वेषिद निजालक्ष्मीः कोशनाथा चतुरङ्गबलेश्वरी साम्राज्यदायिनी सत्यसन्धा सागर मेखला दीक्षिता दैत्यशमनी सर्वलोकवशङ्करी सर्वार्थदात्री सावित्री सच्चिदानन्दपिणी देशकाला परीक्षिणा सर्वगा सर्वमोहिनी सरस्वती शास्त्रमयी गुहाम्ब गुह्यरूपिणी सर्वोपाधि विनिर्मुक्ता सदा शिव पतिव्रत सम्प्रदायेश्वरी साध्वी गुरुमण्डलरूपिणी कुलोत्तीर्णा भगराध्या माया मधुमती महि गणाम्बा मुख्यकाराध्या कोमलांगी गुरुप्रिया स्वतंत्रा सर्वतंत्रेशी दक्षिणा मूर्तिरूपिणी सनकादि समाराध्या शिवज्ञानप्रदायि चिक्कलानन्दकलिका प्रेमरूप प्रियङ्करी नामपारायणप्रेता नन्दिविद्या नटेश्वरी मिथ्या जगदधिष्ठाना मुक्तिदामुक्तिरूपिणी लास्यप्रिया लयकवि लज्जारम्वादिवन्दिता भवद वसुधा वृष्टिः वापारण्यदवानरा दौर्भाग्यतुलवा तुला जराध्वान्तरविप्रभा भाग्याब्धिचन्द्रिका भक्तचित्तकेकि धना धना रोगपर्वत दम्भोलि मृत्युदारु कुहारिका महेश्वरी महाकाली महाग्रासा महाशना अपर्णा चण्डिका चण्डमुण्डा सुरनिषूदिनी क्षराक्षरात्मिका सर्वलोकेशी विश्वधारिणी त्रिवर्गदा त्रि सुभगा त्रयंबका त्रिगुणात्मिका स्वर्गापवर्गदा शुद्धा जपा पुष्पनिभाकृतिः ओजो वती यज्ञरूपा प्रियव्रता दुराराध्या पाटली कुसुमप्रिया महती मेरुनिलया मल्दार कुसुमप्रिया विराराध्या विराडरूपा विरजा विश्वतोमुखी प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपर्तण्डभैरवाराध्या मन्त्रिणी न्यस्तराज्य धूः त्रिपुरेशी जयत्सेना निस्त्रय गुण्या परा परा सामरस्य परायणा वर्दिनी कला माला कामदुःखामरूपिणी कलानि काव्य कला रसज्ञा रससेवधिः पुष्करा पुरातना पूज्या पुष्करा पुष्करे क्षण परं ज्योति परं धाम परमा ी परमन्त्रविभेडिनी मूर्ता मूर्ता नित्य तृप्ता मुनिमानसहंसिका सत्यव्रता सत्यरूपा सर्वान्तर्यामिणी सती ब्रह्माणि ब्रह्म जननी बहुरूपा बुधार्चिता सवित्री प्रचण्डाज्ञा प्रतिष्ठा प्रकटा कृतिः प्राणेश्वरी प्राणदात्री पञ्चाशत् पीठरूपिणी वीरमाता वियर्प्रसूः मुकुन्द मुक्तिनिलया मूल विग्रहरूपिणी भावज्ञा भवरोग्नि भवचक्र प्रवर्तिनी छन्दसारा शास्त्रसारा मन्त्रसारा तलोदरी उदारकीर्तिरुद्धाम वैभवावर्णरूपिणी जन्म मृत्युजरात जन विश्रान्तिदायिनी सर्वोपनिषदुद्घुष्टा शान्त्यतीत कलात्मिका गम्भीरा गगनान्तस्था गर्विता गानलो लुपा कल्पना रहिता काष्ठा कान्ता कान्तार्ध विग्रहा कार्यकारण निर्मुक्ता तरङ्गिता कनत्कनकताडङ्का ग्रिया विग्रहधारिणी अजाक्षय विनिर्मुक्ता मुग्धाक्षिप्रसादिनी अन्तर्मुख समाराध्या बहिर्मुख सुदुर्लभा त्रयी त्रिवर्गनिलया त्रिस्ता त्रिपुरमाले निरामया निरालंबा स्वात्मा रामा सुधा श्रुतिः संसारपङ्कनिर्मगसमुद्धरणपण्डिता यज्ञप्रिया यज्ञकर्त्री यजमान स्वरूपिणी धर्माधाराधनाध्यक्ष धन धान्यविवर्धिनी विप्रिया विप्ररूपा विश्वभ्रमणकारिणी विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी यो निर्यो निलया कूटस्थाकुलरूपिणी वीरगोष्ठी प्रिया वीर नैष्कर्म्यानादरूपिणी विज्ञान कलना कल्या विदग्धा बैन्दवासना तत्त्वाधिका तत्त्वमयी तत्त्वमर्थ स्वरूपिणी सा मगान प्रिया सौम्या सदा शिव कुटुम्बिनी स्यापसव्यमार्गस्था सर्वा पद्मिनिवारिणी स्वस्था स्वभाव मधुरा धीरा, धीरा चैतन्यकुसुमप्रिया सदोदिता सरातुष्टा तरुणादित्यपाटला दक्षिणा दक्षिणाराध्या दरस्मेरमुखाम्बुजा कौलिनी केवलानर्ध्य कैवयपददायी िया स्तुतिमती श्रुतिसंस्तुतवैभव मनस्विनी मानवती महेशी मङ्गलाकृतिः विश्वमाता जगद्धात्री विशालाक्षी विरागिणी प्रगल्भा परमोदारा परामोदा व्योमकेशी विमानस्था बज्रिणी वामकेश्वरी पञ्चयज्ञप्रिया पञ्चप्रेतमञ्चाधिशायिनी पञ्चवि पञ्च भूतेशी पञ्चसङ्ख्योपचारिणी शाश्वती शाश्वतैश्वर्या शम्भुमोहिनी धराधरसुताधन्या धन्या धर्मवर्धिनी धर्म लोकातीता गुणातीता सर्वातीता समात्मिका बन्धूककुसुमप्रख्या बाला लीला विनोदिनी सुमङ्गली सुखकरी सुवेशाढ्या सुवासिनी सुवासिन्यर्चन प्रीता शोभना शुद्धमानसा बिन्दुतर्पण पूर्वजा त्रिपुराम्बिका दशमुद्रासमाराध्या, त्रिपुरा श्रीवशङ्करी ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेय स्वरूपमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा अनघाद्भुतचारित्रा वाञ्छितार्थप्रदायिनी अभ्यासादिशयज्ञाः शलद्वातीतरूपिणी औ व्याज करुणा मूर्तिरज्ञानध्वान्त दीपिका बालगोपविदिदा श्रीमर्त्रिपुरसुन्दरी श्रीशिवा शिवशक्त्यैक्यरूपिणी ललिताम्बिका